ब्रह्माण्डपुराणम् उत्तरभागः अध्यायम् ओन् आभूतसम्प्लवाक्यवर्णनम् अधोत्तरभागप्रारम्भः श्रुत्वा पादं तृतीयं दुःक्रान्तं सूतेन धीमता ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसतमाः पादक्रान्तस्तृतीयोऽयमनुषङ्गेणनस्त्वया चतुर्थं विस्तरात्पादं संहारं पारिकीर्तय मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह सप्तर्षीणामधैतेषां साम्प्रतस्यान्तरे मनोहो, विस्तरावयवं चैव निसर्गस्य महात्मनः विस्तरेणानुपुर्व्या च सर्वमेव ब्रवीहिनः सुद उवाच भवदां सर्वमे, सर्वमे दद्यथा तथं पादं त्विमं ससंहारं चतुर्थं मुनिसतमाह मनोर्वैव सांप्रदस्य साम्प्रतस्य महात्मनः विस्तरेणानुभूर्व्याज निसर्गं शृणु तद्विजाः मन्वन्तराणां संक्षेभं भविष्यैः सह सप्तभिः प्रलयं चैव लोकानां ब्रुवदो मे निबोधत एतान्युक्तानि वै सम्यक् सप्त सप्तसु वै प्रजाः मन्वन्तराणि सङ्क्षेपाशृणुदा नागदानि मे प्रवक्ष्यामि मनोर्वैव भविष्यस्य भविष्यं तु समासात्तनिबोधत अनागदाश्च सप्तैव स्मृतास्त्विह महर्षयः कौशिको गालवश्चैव जामदग्न्यश्च धार्गवः द्वैपायनो वसिष्ठश्च कृपशारद्वतस्तथा आत्रेयो दीप्तिमांश्चैव ऋष्यशृङ्गस्तु काश्यपः भरद्वाजस्तदाद्रौणिरश्वमा महायशाः यदे सप्तमहात्मानो भविष्याः परमर्षयः सुतपाश्चाता सुखाशण तणस्थ देवा मेको विशकस्मृत नाम तस् प्रवश्यामी निबोधध्विता ऋतुस्तुक्रच कृति प्रभाकर प्रभासो मासकृद्धर्मस्तेजो रश्मिक्रतुर्विराड अर्चुष्माञ्योतनो भानुर्यशकीर्तिर्बुधो धृतिः विंशति सुतपाख्येदे नामभिपरिकीर्तिदाः प्रभुर्विभुर्विभासश्च चेदाहन्धारिहारुः सुमदिप्रमदिर्दीप्तिसमाख्यातो महो महान् देहि मुनिरिनः पोष्ठा समसत्यश्च विश्रुतः इत्येते ह्यमिताभास्तु विंशतिः परिकीर्तिताः दामो दानीहृतः सोमो वित्तं वैद्यो यमो निधिः ओमो हव्यं देयं दादा तपशमः ध्रुवस्थन विधानमच नियमश्चे सुखा हेदेश्ये प्रथमेंतरे मरीच सवे पुत्र कश्यप्यत्म सांत भविष्य षष्टिदेवस्त सवर्ण से मनोपुत्र भविष्य न वाव विरजाचाश्च निर्मोगा नवजान्यु वक्ष्यामी सवर्णेशंदरेश्वर्णमनवान्ये भविष्य ब्रमण सुता मेरुस वर्णितई चो दिव्य दृष्ट दक्ष से क्रियाया या दुहिदुस्सुता महता तपसा युक्ता मेरुपृष्ठे जनिदा, ब्र्मास्ते जनिदिण धीमता महर्लोक गदा वृत्ता भविष्य मेरुश्रिता महानुभावास्ते पूर्वं जज्ञरे चाक्षुषेन्दरे जज्ञि मनवस्तेहि भविष्या नागदांदरे भविष्यानागदान्धरे प्राचेतसस्य दक्षस्य दौहित्रामनवस्तु ये सावर्णानामदः पञ्च चत्वारः परमर्षिजाः संज्ञा पुत्रस्तु सावर्णिरेगो वैव स्वतस्तथा ज्येष्ठस्संज्ञा सुधो नाम मुर्वैव स्वदप्रभुः वैवस्वदेन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा चतुर्दशैदे मनवकीर्तिदा कीर्तिवर्धनाः वेदे स्मृतौ पुराणे च सर्वेदे प्रभविष्णवः प्रजानां पदयः सर्वे उदानां पदयस्थिताः तैरीयं पृथिवी सर्वा सप्तद्वीपा सपत्तना पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः प्रजाभिस्तपसा चैव विस्तरस्तेषु वक्ष्यते चतुर्दशैते विज्ञेया सर्गाः स्वयंभुवादयः मन्वन्तराधिकारेषु वर्तन्तेऽत्र सकृत्सकृत विनिवृत्ताधिकारास्ते महार्लोकं समाश्रिताः समतीतास्तु एतेषामष्टौ षट् च तथा परे पूर्वेषु साम्प्रतश्चायं शास्ति वैवस्वदप्रभुः ये शिष्ठास्तान् प्रवक्ष्यामि सह देवर्षिदानवैः सह प्रजानिसर्गेण सर्वां स्ते नागदान्द्विजः वैवस्वदनिसर्गेण तेषां ज्ञेयस्तु विस्तरः अनुना वस्वतुवात् न वक्ष्ये तु विस्तरम मन्वंधरषु भाव्यु भूतेष्वि तथा चुले कुले निसर्गास्तु विभागशः तस्माेयशा सिद्ध्यथ विस्तरेण क्रमण चय्या सुव्रदा नाम विस्रुदा सर्व्या वरिष्ठा दुच्च्येष्टाया वीरिणीसुदा पिदा का जगाम ब्रह्मणो दिघे वैराजस्तमुपासीनं धर्मेण च भवेन च भवद्धर्मसमीपस्थं दक्षं ब्रह्माभ्यभाषद दक्षकन्या तवेयं वै जनयिष्यति सुव्रत चतुरो वै मनून्पुत्रांश्चादुर्वर्ण्यकराञ्चुभान् ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा तं कन्या मनसा जग्मये ब्रह्मण सह सीना तक कन्या व्यजात सदृशानूपस्तेषा चुकुमरकां संभूस्ते श्रिियान्विता उपभोगा सर्थ सद्योजादैशरीरकैः ते दृष्ट्वा तान् स्वयं भूतान् ब्रह्मव्याहारिणस्तदा सरं धाव्यकर्षन्त मम पुत्रो ममेत्युद अभिध्यायात्मनोत्पन्ना नोचुर्वैदे परस्परं यो यस्य वपुषातुल्यो भजतां सततं सुतं यस्य यः सदृशश्चापि रूपे वीर्ये च मानदः तं गृह्णातु सभद्रं वो वर्णदो यस्य यः समः रूपं पिदु पुत्रः सोऽनुरुध्यति सर्वदा तस्मादात्मसमः पुत्रपितुर्मातुश्च वीर्यतः ये वन्ते समयं कृत्वा सर्वेषां जगृहस्सुतान् चाक्षुषस्यान्तरे धीरे प्राप्ते वैवस्वतस्य रुचे प्रजापदे पुत्रो यस्तु भौत्यो नाम कवेः सुतः वैवस्वतेन्तरे जातौ द्वौ मनूरु विवस्वतः वैवस्वतो मनुर्यश्च सावर्णो यश्च वै श्रुतः ज्ञेयः संज्ञा सुदो विद्वान्मनोर्वैवस्वदप्रभुः सवर्णायासुतश्चान्यस्मृतो मनुः सावर्णमन्नवो चत्वारस्तु महर्षिजाः तपसा वै भविष्ये शुभविष्यन्ति साधकाः प्रथमे मेरु सावर्णे दक्षपुत्रस्य वै मनोः परा मरीचिगर्भाश्च तेत्रयः ते त्रयः सम्भूताश्च सर्वे वैवस्वदेन्दरे दक्षपुत्रस्य पुत्रास्तेरोहितस्य प्रजापतेः भविष्यन्ति भविष्यास्तु एकैको द्वादशो गणः ऐश्वरश्चग्रहो राहुर्वागुर्वंशस्तथैव च पाराद्वादशविज्ञेया उत्तरांस्तु निबोधत वाजिपो वाजिजिच्चैव प्रभूतिश्च कगुद्यथ दधिग्रावा विपक्वश्च प्रणीदो विजयो मधुः उदध्योत्तमकौ द्वौ दुद्वादशैदे मरीचयः सुधर्माणस्तु वक्ष्यामि नाम तस्तान्निबोधद वर्णस्तधाधगर्विश्च भुरण्यो व्रजनोऽमिदः अमितो द्रवकेतुश्च जम्भोधाजस्तु शक्रकः सुनेमिर्द्युदयश्चैव सुधर्माणः प्रकीर्तिताः तेषामिन्द्रस्तदाभाव्यो ह्यद्भुतो नामनामतः स्कन्दोऽसौ पार्वतीयो वै कार्तिके यस्तु पावकिः मेधातिधिश्च पौलस्त्यो वसु काश्यप एव च ज्योतिष्मान् भार्गवाश्चैव स्वसिह्नश्चैव वासिष्ठ आत्रे योऽकव्यवाहनः सुतभापौलहश्चैव सप्त इदे रोहितेतरे हृदि के दुर्दीप्तिके दुःशापहस्तनिरामयाः पृथुस्रवास्तधानि गो भूरिद्युम्नो बृकद्यशः प्रथमस्य दुसावर्णैर्नवपुत्रा प्रकीर्तिताः दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः द्वितीयस्य दुसावर्णैर्भाव्यस्यैवान्तरे मनोः सुधा विरुद्धाश्चे वध गण स्मृत दीप्तिमंद ते साम यो पुरशे पुषेद देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः तेषामिन्द्रस्तदा विद्वान् भविष्य शान्तिरुच्यते अविष्मान् पौलः श्रीमान् सुकीर्तिश्चाधभार्गवः आभोमूर्तिस्तदा त्रयोवसिष्ठश्चापवस्मृतः पौलस्त्योऽप्रतिमश्चापि नाभागश्चैव काश्यपः अभिमन्युश्चाङ्गिरः सप्तैदे परमर्षयः सुक्षेत्रश्चोत्तमौजाश्च भूरिसेनश्च वीर्यवान् शतानीको निरामित्रो पृषसेनो जयद्रथः भूरिध्युम्न सुवर्चाश्च दशैदे मानवा स्मृताः एकादशे सावर्णे वै तृतीयके देवा कामका वै मनोजवाः गणास्त्वेदे त्रयख्यादादेवादानां महात्मनां ये कैकत्रिंशतस्तेषां गणस्तु तृदिवौकसाम् मासस्याः निंशत्तु यानि वै कवयो विदुः निर्वाणहृतयो देवा रात्रयस्तु विहङ्गमाः गणस्तृतीयो यः देवदानां देवदानं मनोजवा मूलूर्तास्तु इति देवा प्रकीर्तिताः ये देहि ब्रह्मणः पुत्रा भविष्य मानवाः स्मृताः तेषामिद्रो वृषाणामभविष्य सुररार्तः तेषां सप्तऋषींश्चापि कीर्त्यमानान्निवौ दद हविष्मान् काश्यपश्चापि वा भार्गवः आरुणिश्च तथात्रेयो वसिष्ठो नग एव पौलस्त्यो निश्चरस्तथा पौलहो ह्यति तेजश्च देवाह्य एकादशेऽन्तरे सर्ववेगसुधर्मा च देवानीकः क्षेमधर्माग्रहेषुश्च आदर्शः सावर्णस्य तु देव पुत्रा प्राजापत्यस्य वै नव द्वादशे त्वथपर्याये रुद्रपुत्रस्य वै मनोः चतुर्धो रुद्रसावर्णो देवांस्तस्यान्तरे शृणु पञ्चैव तु गणाः प्रोक्ता देवतानामनागताः हरितारोहिताश्चैव देवासुमनसस्तथा सुकर्माणः सुतरश्च विद्वांश्चैव सहस्रदः पर्वतोऽनुचरश्चैव अपाशुश्च मनोजवः ऊर्जास् स्वाहा स्वधातारा दशे ते हरिदा स्मृताः तपोज्ञानी मृदिश्चैव वर्चबन्धुश्च रजश्चैव दुराजश्च स्वर्णपादस्तथैव च पुष्टिर्विधिश्च वै देवा दशैदे रोहिदा स्मृताः ते वै सुमनसो वेद्यान्निबोधद सुकर्मणः सुपर्वा वृषभः पृष्टा कपिद्युं न विपश्चिदः विक्रमश्चक्रमश्चैव बिभृधकान्तये वच एते देवः सुकर्मणः सुतरांश्च निबोधत वर्षो दिव्यस्तदाञ्ज्येष्ठो कृतप्राप्तिर्व्यावृतो दशमस्तथा सुदारा नामतस्त्वेदे देवा वै सम्प्रकीर्तिताः तेषामिन्द्रस्तु विज्ञेयो हृदधा मा महायशः द्विधिर्वसिष्ठपुत्रस्तु अत्रे यः तपो मूर्तिस्त्वाङ्गिरः सस्तपस्वी काश्यपस्तथा तपोधनश्च पौलस्य पौलहश्च तपोरतिः भार्गवसप्तमस्तेषां विज्ञेयस्तु तपोधृतिः यदे सप्तर्षयसिद्धा अन्ध्ये सावर्णिगेन्दरे देववानुपदेवश्च देवश्रेष्ठो विदुरथः मित्रवान्मित्रसेनोध चित्रसेनो ह्यमित्रः मित्रबाहुसुवर्चाश्च द्वादशस्य मनोःसुताः त्रयोदशे दुपर्याये भाव्ये रौच्येन्दरे पुनः त्रय एव गणा प्रोक्ता देवानां तु स्वयं भुव ब्रह्मणो मानसा पुत्रास्ते हि सर्वे महात्मनः सुत्रामाणस्तुधर्माणः सुकर्माणश्च ते प्रोक्ता भविष्या सोमवायिनां या गिज्ञास्तु याज्ञिकैः अज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव ये वै देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत सुत्रा मानप्रयाज्ञास्तु आज्ञाशाये दु साम्प्रतं सुकर्माणोऽनुयाज्याख्यापृषदाज्ञ्याशिनस्तु ये उपयाज्यास्तु धर्माण युधि देवा प्रकीर्तिताः दिवस्पदेर्मः सत्त्वस्तेषामिन्द्रो भविष्यति पुलः आत्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुधाः अङ्गिराश्चैव धृतिमान् पौलस्त्योऽप्यव्ययस्तु सः पौलःस्तत्त्वदर्शीश्च भार्गवश्च निरुप्सुकः निष्प्रकम्प्यस्तथा त्रेयो निर्मोहकश्यपस्तथा सुतपश्चैव वाशिष्टः दुत्रयो दश चित्रसेनो विचित्रश्च न धर्मो द्रुतो अनेकः क्षत्रविद्धश्च सुरसो निर्भयो दश रौच्यस्य इदे मनोः पुत्रा ह्यन्तरे द्वौ त्रयोदशे चतुर्दशे द्वर्याये भौत्यस्याप्यन्तरे मनोः देवतानां गणाः पञ्च प्रोक्ता ये दु भविष्यति चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजितास्तथा वाजा वृद्धाश्च इत्येते पञ्चदेवगणाः स्मृताः निशादाद्याः स्वराः सप्त सप्त तान्विधि चक्षुषान् बृषदाद्यानि सामानि कनिष्ठान् सप्ततान्विदुः सप्त लोकाः पवित्रास्ते भ्राजिताः सप्त सिन्धवः वाजा वृद्धान् ऋषीन्विधि मनोस्वायम्भुवस्य सर्वे मन्वन्धरेद्राश्च विज्ञेयास्तुल्यलक्षणाका तेजसा तपसा वृद्ध्या बलश्रुतपराक्रमैः त्रैलोक्ययानि सत्वानि गतिमन्दिध्रुवाणि च सर्वश्च सर्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै भूतापवादिनो हृष्टा मध्यस्था भूदाभवधिनशक्ताश्रयो वेदाः प्रवादिनाम् अग्निध्र काश्यपश्चैव पौलस्यो मागधश्च यः भार्गवो ह्यग्निवाहुश्च शुचिरा गिरसस्तथा शुक्रश्चैव दुवासिष्ठपौलहो मुक्त एव च आत्रे उरुर्गुरुश्च गम्भीरो बुद्धशुद्धशुचिकृती ऊर्जस्वी सुबलश्चैव भौत्यस्यैदे मनोस्तुताः सावर्णामनवोह्यदे चत्वारो ब्रह्मणस्तुताः एको वस्वतश्चैव सावर्णो मनुरुच्यते रौच्यो भौत्यश्च यौ तौदौ मदौ पौलहभार्गवौ भौत्य सैवाधिपत्ये तूर्ण कलस्तु पूयते सुद उवाच निशु तो सर्व तदा मन्वंदेकयुगे तस् क्षीणे संहार उच्य सप्त भागवादेव अन्ते मन्वंद्य मध्यस्थ युगाख्याख्येकसप्ततीः पितृभिर्मनुभिः सार्धं क्षीणे मन्वन्तरे तदा अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति तदस्थानानिशुभ्राणि स्थानिनां तानि वै तदा प्रभ्रशयन्दे विमुक्तानि तारा ऋक्षग्रहैस्तथा ततस्ते शुभ्यति तेषु शु त्रैलोक्यस्येश्वरेष्विह सम्प्रप्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः अजिताद्यागणा यत्र आयुष्मन्दश्चतुर्दश मन्वन्तरेषु सर्वेषु देवास्ते वै चतुर्दश सशरीराश्च श्रूयन्ते जनलोके सहानुगाः एवं देवेष्वधितेषु महर्लोगाज्जनं प्रति भूदादिष्वसिष्ठेषु स्थावरां तेषु तेषु वै शून्येषु लोकस्थानेषु महान्तेषु भुवादिषु देवेषु जगदेषूर्ध्वं सायुज्यं कल्पवासिनां संहृत्य तास्ततो ब्रह्मदेव शिपितृदान्नवान् संस्थापयति वै सर्गमहर्दृष्ट्वा युगक्षये चुर्युगसहस्रांद महर्य्रमणो विदु रात्रि युगसहस्राद तेहोरात्रो जनाकृति ये सर्वूदान मित प्रतिसंचर ब्राह्म नैमित्क कलपद प्र संयम प्रदिसर्गेदु प्रतिसर्गे तुभूतानां प्राकृतकरणक्षयः ज्ञानाश्चात्यन्तिकप्रोक्तकारणानामसम्भवः तदस्संकृत्य तान् ब्रह्मदेवां स्त्रैलोक्यवासिनः प्रहरति प्रकुरुदे सर्गस्य प्रलयं पुनः शुषुप्सु भगवान् ब्रह्मा प्रजा संहरदे तदा ततो युगसहस्रान्ते सम्प्राप्ते जयुगक्षये तत्रात्मस्था प्रजाकर्तुं प्रभेदे स प्रजापतिः तदा भवत्यना वृष्टि शतवर्षिकी तया यान्यल्पसाराणि सत्वानि पृथिवीतले तान्येवात्र प्रलीयन्ते भूमित्वमुपयान् दिज सप्त रश्मिरथो भूत्वा उदत्तिष्ठद्विभावसुः असह्यरश्मिर्भगवान् पिभत्यम्भोगभस्तिभिः हरिदा रश्मयस्तस्य दीप्यमानास्तु सप्ततिः पूय दी एव विवर्तन्ते व्याप्नुवन्दोम्बरं शनैः भौमम् काष्ठेन्धनं तेजो दृश्यमद्भिस्तु दीप्यते तस्मादुदगभृत्सूर्यस्तपतीः कथ्यते नावृष्ट्या तपदे सूर्यो नावृष्ट्या परिषिच्यते नावृष्ट्या परिविश्येद वारिणा दीप्यते रविः तस्मादपिबन्यो तस्य ते रश्मयः सप्त पिबन्त्यम्भोमहार्णवाद तेनाहारेण सन्दीप्ता सूर्याः सप्त भवन्त्युद तदस्तेरश्मयः सप्त सूर्यभूताश्चतुर्दिश्यं चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा प्राप्नुवन्ति च चाधश्च रश्मिभिः दीप्यन्ते भास्करा सप्त युगान्दाग्निप्रतापिनः तेवारिणा प्रदीप्ताश्च बहुसाहस्ररश्मयः स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम् ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा तादृनद्यर्नवापृथ्वी निःस्नेहा समपद्यत दीप्ताभिः सन्तताभिश्च चित्राभिश्च समन्ततः अतश्चोर्ध्वं च तिर्यक् च समृद्धा सूर्यरश्मिभिः सूर्याग्नीनां प्रवृद्धानां तं सृष्ठानां परस्परं एकत्वमुपयातानामेकज्वाला भवत्युदा सर्वलोकप्रणाशश्च सोऽनिर्भूत्वानुमण्डली चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा तदप्रलीने सर्वस्मिन् जङ्गमे स्थावरे तथा निर्वृक्षा नितॄणां भूमि कुर्म पृष्ठसमा भवेद् अम्बरीशमिवाभादि सर्वमप्यखिलं जगद सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते खनः भूदलेयानि तत्त्वानि महोदधिगतानि च तदस्थानि प्रलीयन्ते भूमित्वमुपयान्ति च द्वीपाश्च पर्वताश्चैव वर्षान्यतमहो दधिः सर्वं तद्भस्मसा चक्रे सर्वात्मा पावकस्तु सः समुद्रेभ्यो नदीभ्यश्च पादालेभ्यश्च सर्वशः विपत्यपसमिद्धोऽघ्निः पृथिवीमाश्रितोज्ज्वलन् तदः संवर्धितशैलानधिक्रम्य ग्रहांस्तथा लोकान् संहरदे दीप्तो घोरः संवर्धको नलः तदः सपृथिवीं भित्वा रसालमशोष्यद नेदश्यान् दे, दे दुपादालं वायुलोकमधा दहद दा अधस्तात्पृथिवीं दग्ध्वा तूर्ध्वं स दिवं योजनानां सहस्राणि प्रयुदान्यर्बुदान्य च उद तिष्ठन् शिखास्तस्य बह्व्यः संवर्तकस्य तु गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् सदा दखति संदिप्तो गोलकं चैव सर्वशः भूर्लोकं च भुवर्लोकं स्वर्लोकं च महस्तथा कोरोदकति कालात् निरेवं लोकचतुष्टयं व्याप्तेषु तेषु लोकेषु तिर्यगूर्ध्वमधाग्निना तत्तेजः समनुप्राप्य कृष्णं जगति दंशनैः अयो गुडनिभं सर्वं तदाह्येवं प्रकाशदे तद गजगुलाकारास्थिभिमलंकृता उत्तिषंधा खोरा व्योम नि संवर्तका खना के जिन्नीलोत्पल श्या के जिद्धुदसनिभा के जिद्दूस इंद्रनील निभा पर शकुंदनीे जान निभाम्रवर्णनाजिके पीता पयोधरा केजिद्राससवर्नाभाक्षारस निभा मन शिलास्वरे भास कपोदा भास्बुद इन्द्रगोपनिभा के जिद्धरिदालनिभास्तथा चाषपत्रनिभा के जिदुत्तिष्ठन्ति खनादिवि केचित्पुरवराकारः के जिद्गजकुलोपमाः केचित्पर्वतसङ्घाष के जित्स्थलनिभा खनाः क्रीडागारनिभा के तदा जलधरा सर्वे पूरयन्ति नभस्थलं तदस्ते जलदा कोरा राविणो भास्करात्मकाः सप्तधा संवृद्धात्मानस्तमग्निं शमयन्त्युदा तदस्ते जलदा वर्षं मुञ्जन्ति जं सुखो रमशिवं सर्वं नाशयन् रिजपावकं प्रवृष्टैश्च तथात्यर्थं वारिणा पूर्यते जगदर् अद्भिस्तेजोऽभिभूतं च तदाग्निप्रविशत्यपह नष्टे चाग्नौ वर्षगदे पयोधा पावकोद्भवाः प्लावयन्तो जगत् सर्वं बृहज्जलपरिस्रवैः ताराभिः पूरयन्तीमं चोद्यमाना स्वयं भुवा अन्ये तु सलिलौकैस्तु वेदामभिभवन्त्यपि सादृद्वीपान्तरं पीदं जलमन्येषु तिष्ठति पुनः पतति भूमौ तत्पयोधस्तान्नभस्थले संवेष्टयदि घोरात्मा दिवि वायुः तस्मिन्ने कार्मवे घोरे नष्टे स्थावरजङ्गमे पूर्वे युगसहस्रे वै निःशेषकल्प उच्यते अधाम्भस्वृते लोके प्राकुरे कार्मवं बुधाः अध भूमिर्जलं खं च वायुश्चैकार्मवे तदा नष्टे नलेऽन्धभूते धुप् ज्ञायद न किञ्चन पार्थिवास्त्वदसा दैव्याश्च सर्वशः असरन्त्यो व्रजन्त्यैक्यं सलिलाख्यां भजन्त्युद आगतागतिके चैव तदा तत्सलिलं स्मृतं प्रच्छाद्यदिमहिमेधामर्णवाख्यं तु तज्जलम् आभादि यस्मात्तद्भाभिर्भाशब्दो व्याप्तिदीप्तिषु भस्म सर्वमनुप्राप्य तस्मादम्भो निरुच्यते नानात्वे चैव शीघ्रे च धातुर्वै अर ये कार्मवे तदा वै न शीघ्रस्ते नता नराः तस्मिन् युगसहस्रान्धे दिवसे ब्रह्मणो गदे तावन्तं तु भवत्ये कार्मवं जगद तदा सर्वे व्यापारा न वर्तन्ते प्रजापतेः एकमेकार्णवे तस्मिन्नष्टे स्थावरजङ्गमे तदा स भवति ब्रह्म सहस्राक्षसहस्रपात् सहस्रशीर्षासुमनासहस्रपात् सहस्रा सहस्रचक्षुर्वदनसहस्रवाक् सहस्रा सहस्रबाहु प्रथमः प्रजापतिस्त्रयी मयो यः पुरुषो निरुच्यते वर्मा भुवनस्य गोप्ता अपूर्व एकः प्रथमस्तुराषाढ हिरण्यगर्भपुरुषो महान् वै सम्पद्यते वै रजसः सर्वतसलिलाप्लुदे चतुर्युगसहस्रान्धे प्रकाशेप्सुसरात्रिं कुरुदे प्रभुः चतुर्विधा यदा चेदे प्रजा सर्वालयं पश्यन्ति तं महात्मानं कालं सप्तमहर्षयः जनलोकं विवर्तास्ते तपसा लब्धचक्षुषः भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः सत्यादीन् सप्त लोकान्वैते हि पश्यन्ति चक्षुषा ब्रह्माणं ते तु पश्यन्ति सदा ब्राह्मीषु रात्रिषु सप्तर्षयः प्रपश्यन्ति स्वप्नं कालं स्वरात्रिषु कल्पानां परमेष्ठित्वा तस्मादाद्य स पठ्यते सस्रष्टावूता कल्पादिषु पुनःपुन मेषा दुह्यात्म प्रजापति आधात्मन महातेजमाय सर्वृत ततः स वसदे रात्रि तम से जल्द प्राप्ते प्रतिबुद् प्रजापति मनसि सृक्षया युक्तः निदधे पुनः एवं स लोके निर्वृत्त उपशान्दे प्रजापदौ ब्राह्मे नैमित्तिकेतस्मिन् कल्पिते वै प्रसंयमे देहैर्वियोगसत्त्वानां तस्मिन् वै कृष्णस तदो दग्धेषु भूदेषु सर्वेष्वादित्यरश्मिभिः देवर्षिमनुवर्येषु तस्मिन्नम्बुप्लवे तदा गन्धर्वादीनि सत्वानि पिशायान्तानि सर्वशः कल्पादावप्रदप्तानि जनमेवाश्रयन्ति वै तिर्यज्ञोनीनि नरके यानि गदान्यपि तदा तान्यापि सर्वशः जले तान्युपपद्यन्ते यावत् सम्प्लवते जगद व्युष्ठायां च रचन्यान्तु ब्रह्मणो व्यक्तयो नितः जायन्ते हि पुनस्तानि सर्वभूतानि कृतस्नशः ऋषयो मानवो देवाः प्रजा सर्वाश्च दुर्विधाः तेषामपि च सिद्धानां निधनोत्पत्तिरुच्यते यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमने स्मृते तथा जन्मनिरोधश्च भूतानामिह दृश्यते आभूत संबलस्म संसार उच्य सर्वाण भूतान चाएं वर्षणी स्थावरादी नियम कल कल तथा प्रजा यहाँ नानूपा पर्य दान्येव तथा ब्रह्मुरात्रिषु प्रत्याहारे विसर्गे च गतिमन्दिध्रुवाणि च निष्क्रमन्दे विशन्ते च प्रजाकाले प्रजापतिं ब्रह्माणं सर्वभूतानि महायोगमहेश्वरं स सृष्टा सर्वभूतानां कल्पादिषु पुनः पुनः व्यक्तो व्यक्तो महादेवस्तस्य सर्वमिदं जगत् येनैव सृष्टा प्रथमं प्रयाता आपोहि मार्गेण महीतलेऽस्मिन् पूर्वं प्रयादेन यथा त्वधापस्तेनैव तेनैव दुःसर्व्रजन्ति यथा तत्रैव तत्रैव विवर्तमान मतस्त देहांध्रवे वशा धर्वश्चर चावामनव प्रजेश अे स्वर्ग कद सिद्धा तीधाख्यावशाश्चर्म्यानसर्गेण सवा अध ऊर्ध्वं प्रवक्ष्यामि कालमाभूदस्सम्प्लवं मन्वन्तराणि यानि स्युर्व्याख्यादानि मया द्विजाः सह प्रजानिसर्गेण सह देवैश्चतुर्दश सा युगाख्या पूर्णविशेषकल्प उच्यते ये दद्ब्राह्ममह ज्ञेयं तस्य सङ्ख्यान्निबोधत निमेषतुल्यमात्रा हि कृदा लब्धक्षणेन तु मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदशस्मृताः नवक्षणस्तु पञ्चैव विंशत्काष्ठा तु द्वे त्रयः प्रस्थाः सप्तोदकाश्चैव साधिकाक्तु लवस्मृतः लवास्त्रिंशत्कलाज्ञेया मुहूर्तस्त्रिंशतकलाः मुहूर्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः अहोरात्रं कलानां तु अधिकानि शतानि ताश्चैव संख्याया ज्ञेयाश्चन्द्रादित्यगतिर्यथा निमेषादशपञ्चैवं काष्ठास्तास्त्रिंशदकला त्रिंशत्कलामुहूर्तं तु दशभागं कलास्मृदं। स्मृतं चत्वारिंशत्कला पञ्च मुहूर्त इति प्रकल्पिताः तथानेनाम्भसश्चापिं फलान्यधत्रयोदश मागधेनैव मानेन जलप्रस्थो विधीयते एवाराप्लुतप्रस्थाश्चत्वारो नालिकोच्चयः हेममाशै क्रुधश्चिद्रश्च दुर्भिश्चतुरङ्गुलैः समाहनि च रात्रौ च मुहूर्ता वैद्विनालिकाः रवेर्गदिविशेषेण सर्वेष्वेषु नित्यशः अधिकं षट्शतं यच्च कलानां प्रविधीयते तदहर्मनुषं ज्ञेयं नक्षत्रं तु दशाधिकं सावनेन दुमानेन अब्दोऽयं मानुषस्मृतः यदद् दिव्यमहोरात्रमिति शास्त्रविनिश्चयः अह्लानेन तुया संख्या मासर्त्वयनवार्षिकी तदा बद्धमिदं ज्ञानं संज्ञयाह्युपलक्षितम् कलानां तु परिमाणं कला इत्यभिधीयते यतः ब्रह्मणः प्रोक्तं दिव्या कोडी तु सा स्मृता शतानां च सहस्राणि शतद्विगुणितानि च नवतिं च सहस्राणि तथैववान्यानि यानि विस्मयं परमाद्भुतं संख्या सं भजनं ज्ञानमपृच्छन् तदा ऋषय ऊजुः सम्प्रकालनमानं तु मानुषेणैव सम्मतं मानेन श्रोतुमिच्छामः पादाक्षरं तेषां श्रुत्वा सदेवस्तु वायुर्लोकिते रतः संक्षेपात् दिव्यचक्षुष्ट्वा प्रोवाच वचनं प्रभुः तासाम रात्रहनी पूर्व कीर्तिख्यादाग्राह्मे वक्ष्याम्यह क्षेत्र कॉटिशता चुका वर्षा मनुषाण निधो द्वांशतः कॉट्यसंख्या संख्य तथा शतसहस्राणि एकोननवतिः पुनः अशीतिश्च सहस्राणि यष कालप्लवस्यतु मानुषाख्येन सङ्ख्यातः कालो ह्याभूतसंप्लवः शत सूर्यप्रदग्धेषु वै महाभूतेषु लीयन्त सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे विनिवृत्तेज संहारे उपशान्ते प्रजापदौ निरालोके प्रदग्धेदो नैश्चेण तमसावृते ईश्वराधिष्ठिते त्वस्मिंस्तदा ह्ये कार्मवे किल तावते कार्मवे ज्ञेयं यावदासीदः प्रभोः रात्रिस्तु सलिलावस्थानुवृत्तौ व्याप्यः स्मृतम् अहोरात्रस्तदैवास्यक्रमेण परिवर्तते आभूतसम्प्लवो ह्येष अहोरात्रस्मृतः प्रभोः त्रैलोक्ये यानि गदि गदिमन्दिध्रुवाणि च आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसम्ब्लवः अतीता वर्तमानाश्च तथैव नागताः प्रजाः दिव्यसङ्ख्या प्रसङ्ख्यादा अपरार्थगुणीकृताः परार्थं द्विगुणं चापि परमाह्युप्रकीर्तनम् ये दावान् स्थितिकालस्तु ह्यजस्येह प्रजापतेः स्थित्यन्तं प्रतिसर्गश्च ब्रह्मणः परमेष्टिनः यथा वायुप्रवेगेन दीपार्चिरुपशम्यति तथैव वा ब्रह्मा समुपशाम्यति सदिसंसृष्टे महदादौ महेश्वरे महत्प्रली व्यक्ते गुणसाम्यं ततो भवेद् इत्येषवत्समाख्यातो मयाख्याभूतसम्बलवः ब्रह्म नैमित्तिको ह्येष समासेन समाख्यातो भूय किं वर्मयामिवह य इदं धारये नित्यं शृणुयाद्वाप्यभीक्ष्णशः कीर्तयेद्वर्णयेद्वापि महदीं सिद्धिमाप्नुयात् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे आभूतसम्बलवाख्यवर्णनं नाम प्रथमोऽध्यायः ओ